अत श्रीमहागणेश पञ्चरत्नस्तोत्रम् मुदकरात्तमोदकम् सदा विमुक्तिसाधकम् कलाधरावतम् सकम् विलासि लोक रक्षकम् अनायकैकनायकम् विनाशिते भदैत्यकम् नराशुभाशुनाशकम् नमामितम् विनायकम् न तेतराति भीकरम् नवोदितार्कभास्वरम् न मत्सुरारि निर्जरम् न ताधिकापदुद्धरम् सुरेश्वरम् निधीश्वरम् गजेश्वरम् गणेश्वरम् महेश्वरम् तमाश्रये परात्परम् निरन्तरम् समस्त लोक दरे धरो दरं वरं वरे भवक्रमक्षरम् कृपाकरं क्षमाकरम् मुदाकरम् यशस्करम् मनस्करम् नमस्कृतं नमस्करो मि भास्वरम् अकिञ्चनातिमार्जनं चिरन्दनोक्तिभाजनम् पुरारि गर्वचर्वणम् प्रपञ्चनाशभीषणम् धनञ्जयादिभूषणम् कवो लम् भजे पुराणवारणम् नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम् अचिन्त्यरूपमन्त हीनमन्तराय कृणम् हृदन्तरे निरन्तरं वसन्तमेव योगिना तमे कदन्त मे वतं विचिन्तयामि सन्ततम् महा गणेश पंच रन आदरण योन्वती प्रभातक हृद स्मर गणेशता दोषतां सुपुत्रता सहितायुरष्टभूतिम्युपै सोचिरा